जय शङ्खगदाधर नीलकलेर पीतपताम्बरदे पदम् जयशङ्खग गदाधर नीलकलेवर पीतपताम्बरदे पदम् जय चन्दन चचित् कुण्डलमण्डित कौस्तुभशुभितदेहि पदं जयपङ्कज लोचन मारविमोहन पापविखण्डन देहि पदं जय वेणुनिना दकरास दकरासविहारंकिम सुन्दर देहि पदम् जय धुरंधर अद्भुत सुन्दर दैवत सेवित देहि पदम् जय विश्वविमोहन मानस मोहन संस्थितिकारण देहि पदम् जय भक्त जय भक्तजयाश्रय अंतिम अन्तिमबान्धव देहि पदम् जय दोर्जय शासन चे कालिय मर्दन देहि पदम् जय नित्यनिरामय दीनदयामय चिन्मय माधव देहि परं जय पामर पावन धर्मपनायण दानवसूदन देहि पदं जय वेदवेदामर गोपवधूप्रिय इन्दावन धन देहि पदम् जय सत्यसनातन दुर्गति भञ्जन सजन रञ्जन देहि पदम् जयसेवकवसर करुणा सागर पाक्षित पूरक देहि पदं जयपोत धरातर देव परापर सत्गुणाकर देहि पदं जय गोकुलभूषण कंसन शोदन आत्मत जीवन देहि पदम् जययोगपरायण संस्कृति मारण ब्रह्म निरञ्जन देहि परं जययोग परायण संस्कृतिवारण ब्रह्म निरञ्जनदेहि परं जययोग परायण संस्कृतिवार ब्रह्म निरञ्जन देहि पदम् नवीन मेघसन्निभं सुनीलकमलच्छविं सुहासरञ्जिताधरं न यशोदानन्दनन्दनम् सुरेन्द्रपादवन्दनं सुवर्णरत्नमण्डनं नमामि कृष्णसुन्दरं भवाब्कर्णधारकं भयार्तिनाशकारकं ममोक्षु मुक्तिदायकं नमामि कृष्णसुन्दरं नमामि कृष्णसुन्दरम्